मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायम् त्रि क्रोधासुरराज्यप्राप्तिवर्णनम् श्रीगणेशाय नमः ब्रह्मोवाच गणेशायस्तोत्रमुख्याय सन्तुष्टा वा विष्ठरश्रवाः गणेशं सिद्धिदं पूर्णम् भक्तेभ्यो भक्तवत्सलं ततः समोहिनीरूपमभूत्यक्तुं समुद्यतः एतस्मिन्नन्तरे तत्रामरैः सम्बोधितः शिवः ज्ञात्वा भस्मासुरं शम्भुर्मृदं विस्मितमानसः न अर्तभक्तिसंयुक्तो जय विघ्नेश उच्चरन् तद सर्वैः समायुक्तो मुकुन्दकपुरं ययौ तत्र नारी स्वरूपस्तमदर्शत्केशवं महामोहप्रदं रूपं दृष्ट्वा विष्णोः सुविस्मितः तदज्ञानो महादेवस्तां ययौ कामविह्वलः तं दृष्ट्वा मोहितं विष्णुः पपालस्त्रीस्वरूपधृक तामन्वद्धावद्देवेशङ्करो विह्वलो भृशम् तदस्तत्याज तद्रूपं विष्णुः स पुरुषो भवद शिवखिन्नश्च तत्रैव स्खलितोऽभूत् सुविह्वलः तदः सर्वे ययुर्देवाः स्वस्वस्थानम् मुदायुधाः स्तुत्वा विष्णुमहाभागं शिवस्वस्थानगो भवद शिवस्य वीर्यसम्पादात् तद्वीर्यप्रभवोऽसुरः बभूव श्यामवर्णश्च ताम्रचक्षुप्रदापवान् स शुक्रमुपसङ्गम्यो वाच तं प्रणम्य तेजसायुक्तशिष्यं पालय मां मुने ततो ध्यानेन तस्य सर्वं महामुनिः पुनस्तं प्रजगादैव वचनं हर्षयन्नरं शुक्र उवाच मोहिनीं शङ्करो धृष्ट्वा कामबाणप्रपीडितः पश्चाद्विष्णुम् समालोक्य स्वचित्ते क्रोधमादधे मनोमे चञ्चलम् पूर्णम् तत् ग्रहीष्यामि यत्नदः मनोग्रहणरूपश्च क्रोधस्तत्र प्रवर्तते तस्मिन्काले च वीर्यस्य स्खलनम् सहसा भवत तस्माज्जादौषितेन क्रोध नामा भविष्यसि तदोदानवमुख्यैष कारयामास विप्रप मौञ्च्यन्द सर्वसंस्कारान् यथाविधिस शास्त्रविद क्रोधो वेदादिकं सर्वमभ्यस्य गुरुसन्निधौ शम्बरस्य तुल्या मे महासुरः प्रीतिनाम्नीं महारूपां सर्वावयवशालिनीं जूपलावण्यसंयुक्तां विषयानां प्रवर्धिनीं ततः शुक्रं समागम्य जगादप्रणिपत्यतं कृताञ्जलिर्महातेजा दैत्येभ्यः सुखदं वचः क्रोधासुर उवाच ब्रह्माण्डविजयं स्वामिन् करिष्यामि त्वदाज्ञया मन्त्रं देहि तदर्थं मे सर्वं यशोविवर्धनं ब्रह्मोवाच तस्य तद्वचनं श्रुत्वा काव्य सर्वज्ञसत्तमः दैत्यानां प्रहितार्थाय ददौ तस्मै महामनुम् सूर्यस्य विधियुक्तं प्रणम्य सङ्गृह्यतं ययौ वनं व्याघ्रादिसङ्कीर्णं तपसे कृतनिश्चयः एकपादेन तिष्ठन् समजपन् मन्द्रमुत्तमं चित्ते ध्यायन्नयमाणमूर्ध्वदृष्टिर्महासुरः निराहारेण देवेशं तोषयामास यत्नदः शीतोष्णादिभयं त्यक्त्वा काष्ठवत्संस्थितोऽभवद दिव्यवर्षसहस्रेण तुष्टो भानुस्तमाययौ वरं दातुं महादैत्यमुवाच घननिस्वनः रविरुवाच वरान्वृणुमहाभागक्रोधाहं ददा ते ददामि तान् सन्तुष्टस्तपसोऽग्रेणेप्सितान् हृदि महामदे श्रुत्वा रवेर्वचो दैत्यो दृष्ट्वा तं पुरतः स्थितम् प्रणनाममःभक्त्या पूजय त्यजसाम्निधिम् पुनः प्रणम्यतुष्टावकृताञ्जलिपुडोऽसुरः सौरसूक्ते न देवेशं पुनः सन्नद आदराद तमुवाचार्यमादैत्यं वरं वृणु महामदे यं यमिच्छसि तं तं ते संशयः क्रोधासुर उवाच उत्पत्तिस्थितिसंहारयुक्ता ये देवनायकाः तेभ्यो मे मरणं भानो न भवेद्वै कदाचन ब्रह्माण्डजयने शाक्दमां कुरुष्व विशेषतः राज्यं चराचरस्यैव देहि मे दिधिनन्दन आरोग्यं मनसा यद्य चिन्तितं सफलं भवेद नमे समो भवेत तथा कुरु दिवस्पदे श्रुत्वा तस्य वचोरम्यं सर्वेभ्यो भयदायकं विस्मितस्तेजसां नाधस्तं जगाद सुयन्द्रितः भानुरुवाच क्रोधत्वया च यत्प्रोक्तं तदेव सफलं भवेद् तपः सा यन्द्रिदो दैत्य तस्माद्दत्तं मया परम् एव मुक्त्वा यमालोकमगमद्दुःखसंयुधः क्रोधो हर्षसमाविष्टप्रययौ स्वगृहं तदः सुहृदो नन्दयामासा सुरान् सर्वान् महायशाः काव्यम् प्रणम्य स्वस्थाने संस्थितो भूनमदान्वितः हर्षशोकश्च पुत्रौ द्वौ प्रीत्यामुत्पाद्य दैत्यपः नानाभोगान् प्रभुञ्जानो गर्वितो भूस्ततः परम् शुक्रं सकलनीदिज्ञं समानाय प्रपूज्यतं तस्यानुमदमागृह्य नगरं निर्ममे सुरः आवेशनामकं रम्यं सर्वशोभासमन्वितं तत्रा जग्मुश्च विप्रर्शे दानवादैत्य राक्षसाः चादुर्वर्ण्यसमायुक्ता निवासं चकृरे पुरा जना हर्षयुदास्तत्र मुमुदुः स सुहृद्गणाः चकार विप्रपैः अभिषिक्तं स दानवानां पदे तद क्रोधस्य तत्पुल्यां प्रधानाः पञ्चदारुणाः बभूवुः सर्वनीधिज्ञा महामाया महाबलाः बलेर्दृम्भस्तदा राहुरवणो माल्यवान् परः तैर्युक्तशुशुभेत्यन्तं क्रोधः परमदारुणः अन्ये प्रहस्तमुख्याश्च राक्षसादानवास्तथा सिषेविरे भावयुक्ता महाक्रोधं महाबलाः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे लम्बोदरचरिते क्रोधासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ओ